त्रिपञ्चाशत्तमोऽध्यायः शौनक उवाच सर्पसत्रे तदाराज्ञः पाण्डवे यस्य धीमतः जनमेजयस्य के त्वा सन् ऋत्विजः परमर्शय केसदस्या बभूवुश्च सर्पसत्रे सुदारुणे विषादजननेत्यर्थम् पन्नगानाम् महाभये सर्वम् विस्तरशस्तात सर्पसत्र विधान जेयाे चूत चौतिवाच हत कथयिष्याषिणा ये ऋत्ज सदस्यूपते त्रोता बूवाथ ब्राह्मणशंड्यवन सन्व्या जाद विद उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः ब्रह्मा भवच्छार्ङ्गरवोथा ध्वर्युश्चापि पिङ्गल सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गल असितो देवलश्चैव नारदः पर्वतस्तथा आत्रे यः कुण्डजठरौ द्विजः कालघटस्तथा वात्स्यश्रुतश्रवा वृद्धो जपा स्वाध्यायशीलवान् कोहलो देवशर्मा च समसौरभ एते चान्ये च बहवो ब्राह्मणा वेदपारगाः सदस्याश्चाभवंस्तत्र सत्रे पारीक्षितस्यः जिह्वत्सृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ अहयः प्रापतंस्तत्र घोराः प्राणिभयावहा वसामेदो वः कुल्यानागानाम् सम्प्रवर्तिता ववौ गन्धश्च तुमुलो दह्यताम् अनिशम् तदा पतताम् चैव अश्रूयतानिशम् शब्दः पच्यताम् चाग्निना भृशम् तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम् गतश्रुत्वैव राजानम् दीक्षितम् जनमे जयम् ततः सर्वम् यथा वृत्तमाख्यायभुजगोत्तमः अगच्छरणम् आगः कृत्वा न तवास्तीह तक्षक भयम् नागेन्द्र तस्माद्वै सर्पसत्रात् कदाचन प्रसादितो मया पूर्वं तवार्धाय पितामहः तस्मात्तव भयम् नास्ति व्येतु ते मनसोज्ज्वरः सौतिरुवाच एवमाश्वासितस्तेन ततः स उवासभवने तस्मिंश्चक्रस्य मुदितः सुखी अजस्रम् निपतस्त्वग्नौ नागेषु भृशदुःखितः अल्पशेषपरीवारो वासुकिः पर्यतप्यत कश्मलम् चाविशद्घोरम् वासुकिम् पन्नगोत्तमम् स घूर्णमानहृदयो भगिनीमिदमब्रवीत् दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति च सीदामीव मनः दृष्टिर्भ्राम्यतिमेऽतीव हृदयम् दीर्यतीव च पतिष्याम्यवशोद्याहम् तस्मिन्दीप्ते विभावसौ पारीक्षितस्य यज्ञोऽसौ वर्तते स्मज्जिघांसया व्यक्तम् मयापि गन्तव्यम् प्रेतराजनिवेशनम् अयम् स कालः सम्प्राप्तो यदर्थमसि जरत्कारौ मया दत्तात्राय स्वास्मान् स बान्धवान् आस्तीकः किल यज्ञम् भुजगोत्तमे प्रतिषेत्स्यति माम् पूर्वम् तद्वत्से ब्रुहिवत्सं कुमारं कुमारम् वृद्धसम्मतम् ममाद्यत्वम् सभृत्यस्य मोक्षार्थम् वेद वित्तमम् इति श्रीमहाभारते आदिपर्णि पर्वणि सर्पसत्रे वासुकि वाक्ये वा सुसुकीपंचाशतमोध्याय